अत द्वितीयाष्टकषष्टमः प्रश्नप्रारम्भः स्वाद्वीम् त्वा स्वादुना तीव्राम् तीव्रेण अमृतामृतेन मधुमतीम् मधुमता स्विताभिसगुम् सोमेन सोमोऽस्यभ्याम् वक्ष्यस्व इन्द्रागसुत्रापच्यस्व परितोषिम् च तासुताम् सोमो न उत्तमगुंहभिः जर्हन्वायोरव्यो अप्स्वन्तरा सुषावसोमवद्रिभिः पुना तु ते परिसृतम् सोमगुम् सूर्यस्य सो दुहिता वारेण शश्वतातनाः वायुः पोतः पवित्रेण अतिद्रुतः इन्द्रस्य युज्यः वायुः क्रूतः पवित्रेण प्रत्याङ्ो अतिद्रुतः इन्द्रस्य युज्यः सखाः ब्रह्मक्षत्रम् पवते ते च इन्द्रियम् सुरजा सोमः सुधा सुमदाय शुक्रेण देवदेवताप्रि रसेनान्नङ्ग्यजमानादिधेहि कुलिदण्डयवमन्तो यवञ्चित् यथादान्त्यनुपूर्वम् वियूय विहेहेषाम् कृणुतभोजनानि ये बर्हिषो नवो भक्तिर्न जग्मः उपजामगुरोऽस्य श्विभ्याम् वा दृष्टम् गृह्णामि सरस्वत्यानिन्द्राजसुत्राम्णेः एष ते योस्तेजसे त्वा वीरजा दत्वा बला जत्वा तेजोऽसि तेजोमयुधेहि वीर्यमसि वीर्यम् मयुधेहि बलमसि बलम् मयुधेहि नानाहि देवहितकम् सतः मासगुंसक्षाथाम् परमे व्योमन् सुरात्वासि सुष्मिणि सोम एषः मामाहि पुंसे स्वाम्यो निमाविशन् उपयाम गृहीतोऽस्याश्विनम् तेजः सारस्वतम् वीर्यम् ऐन्द्रम् बलम् एष तेजो आनन्दायत्वा महसेत्वा ओजोऽस्योजो मनिधेहि मन्युरसि महोऽसि महो मयुधेः सहोऽसि सहो, सहो मयिधेः या व्याघ्रम् शूचिका उभौ वृकम् च रक्षति श्येनम् प्रदत्त्रिणगुंसिगुंहाम् सेमम् पात्वगुंहसः संवृतस्थसम्मा भद्रेण पृङ्क यतस्थपिमापात्मना पृङ्क सोमो राजामृतगुंसुतः ऋजेशेणाजहान्वृत्युम् ऋतेन सत्यमिन्द्रियम् विपानगुम् शुक्रबन्धसः इन्द्रस्येन्द्रियम् इदम् प्रजो मृतम् मृधो सोममध्योऽव्यपिपत् छन्दसा हतुंसशुचिषत् ऋतेन सत्यमिन्द्रियम् अध्यः क्षीरम् व्यपिबत् रुङ्गाङ्गिरसोऽधिजा मृतेन सत्यमिन्द्रियम् अन्नात्मविश्रुतो रसम् ब्रह्मणा व्यपिभत्क्षत्रम् योनिम् प्रविशदिन्द्रियम् गर्भो जरायुमावृतः पुल्बञ्जः द्यजन्मना ऋतेन सत्यमिन्द्रियम् वेदेन रूपेऽ्यकरोत् सका सते प्रजापतिः ऋतेन सत्यमिन्द्रियम् सोमेन सोमोऽव्यपिवत् सुता सुतौ प्रजापतिः ऋतेन अश्रद्धामनृते दधात् श्रद्धागुम् सत्ये प्रजापतिः ऋतेन सत्यमिन्द्रियम् दृष्ट्वा परिस्रुतो रसम् शुक्रेण शुक्रम् यपिपत् पयः सोमम् प्रजापतिः ऋतेन सत्यमिन्द्रियम् निपानगुम् शुक्रमन्धसः इन्द्रस्येन्द्रियम् इयम् पयोमृतम् मधु सुराबन्तम् परिहिषदघुम् सुधीरम् यज्ञगुम् हिन्वन्दिमहिषानमोभिः धानासो मन्दि विदेवतासु मदेमेन्द्रम् यजमानाः स्वर्गाः यस्तेन सः सम्भृत ओषधीषु सोमस्य सुष्म सुरजासु तस्य तेन जिन्व यजमानम् मदेन सरस्वतीमश्विनाविन्दमग्निम् नमश्विना नमुचेरासुरादधि सरस्वत्यसदोलिन्द्रियाय इमन्तगुम् शुक्रम् मधुमन्तमिन्दुम् भक्षयामि यदत्र वित्तगुम् रसिनः सुतस्य यदिन्द्रो अपि पच्छकेभिः अहम् तदस्य मनसा शिवेन सोमगुम् राजानमिह भक्षयामि पितृभ्यःस्वधा विभ्यः स्वधा नमः पितामहेभ्यः स्वधा विभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधा विभ्यः स्वधा नमः अक्षन्पितरः अमी अमी मृजन्तपितरः पितरः शुन्धध्वम् पुनन्तु मापितरः सोम्यासः पुनन्तु मापितामहाः पुनन्त्वप्रपितामहाः पवित्रेण शतायुषा पुनन्तु मापितामहाः पुनन्त्वप्रपितामहाः पवित्रेण शतायुषा विश्वमायुर्व्यष्णवै अग्नः योगुंशिपवसेऽग्ने पवस्व जातवेदः पवित्रपद्यत्ते पवित्रमर्चिषी विभाभ्याम् देव समितरुैश्वरेवी पुनती ये समानाः समनसः यतरोजमराज्ये तेषाम् लोकः स्वधा नमः यज्ञो देवेषु कल्पताम् ये स जीवा जीवेषु मामकाः तेषा विश्रेर्मयि कल्पताम् अस्मिल्लोके शतम् द्वे श्री अशृणवम् पितृणाम् अहम् देवानाभृतमर्त्यानाम् याभ्यामिदम् विश्रमे जत्समेति यदन्तरा पितरम् च इदगुम् हविः प्रजननम् मे अस्त्व दशवीरगुम् सर्वगणग्रः स्वदेः आत्मसनि प्रजासनि अशुसन्यभयसनि लोकसनि अग्निः प्रजाम् बहुलाम् मे करोतु अन्नम् पयोरेतो अस्मासु भता रागस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा सीसे न तन्त्रम् मनसा मनीषिणः पूर्णा सूत्रेण कवयो भजन्ति अश्विना यज्ञपुंसविता सरस्वती इन्द्रस्य रूपम् वरुणोऽभिषज्यन् तदस्य रूपमृतपुंसकीभिः तिस्रोदधुर्देवताः सगम्रराणाः लोमानि शुष्पैर्बहुधा नतोक्मभिः त्वगस्य भागम् समभवन्न लाजाः तदश्विनाभिषजाुद्रवर्तने सरस्वती वयति पेशो अन्तरः अस्थिमज्जानम् कारो कारोदरेण दधतो गवान् त्वचे सरस्वती मनसा पेशलम् वसो ना सत्याभ्याम् वयति दर्शतम् वपुः रसम् परिसृता नरोहितम् हृद्धीरस्तसरन्न रसा शुक्रमृतम् चरित्रम् सुरजामोत्राज्यनयन्त्यरेखः अपामदिन्दुर्मदिम् बाधमानाः को मध्यम् बातकम् सगुवन्तदारात् इन्द्रः सुत्रामाहृदयेन सत्यम् प्रोडाशेन अतः सैवायव्यये न विनातिपित्तम् आन्द्राणि स्थालेव पिन्बमाना गुदा पात्राणि सुदुघा न धेनुः श्येनस्य पत्रन्न माता कुम्भोनिष्ठर्जनिताशचीभिः यस्मिन्नग्रेजोऽन्याङ्गर्भो अन्तः राशेर्त्यक्तः दुहेन कुम्भेन स्वधाम् पितृभ्यः मुखपुंसदस्य शिरजित्सदेन जिह्वापवित्रमश्विनासगम् सरस्वती च पन्नपादुर्भिषगस्य वालः मस्त्यर्न शेपो हरसाकरस्वी अश्वेभ्याम् छादेन तेजो हविषाश्रितेन पक्ष्माणि गोधूमैः क्वलैरुतानि केशो न शुक्लमसितम् अविर्नमेषो नसि वीर्याय प्राणस्य पन्था अमृतो ग्रहाभ्याम् सरस्वत्युपवाकैर्भ्यानम् नस्यानि बर्हिर्बदरेर्जजान इन्द्रस्य रूपमृषभो बलाय कर्णाभ्या विश्रोत्रममृतम् ग्रहाभ्याम् यवान बर्हिर्भृविकेसराणि कर्कन्धुजज्ञे मधुसारघम् मुखात् आत्मनुपस्थेन वृतस्य लोम मुखे श्मश्रोणि शिखा श्रंहस्य लोम त्रिशिरिन्द्रियाणि अङ्गान्त्यात्मम् भिषजातदश्विना आत्मानमङ्गैः समधात् सरस्वती इन्द्रस्य सतमानमायोः चन्द्रेण ज्योतिरमृतम् दधाना सरस्वती योऽन्याम् गर्भमन्तः अस्येभ्याम् पत्नी सुकृतम् बिभर्ति अपागुम् रसेन वरुमानसाम्ना इन्द्रगश्रियै जनयन् अप्सुराजा ते चः पशो नागुम्हविरिन्द्रियावत् परिसृता पयसा विषजा सरस्वत्या सुकासुकाभ्याः अमृतः सोमगिन्दुः निरोऽसि वरुणोऽसि समहम् विश्वैर्देवैः क्षत्रस्य राभिरसे क्षत्रस्य योनिरसे स्योदामासीद सुषदामासीद मा त्वाहि पुंसीद मा माहि पुंसीद निषसादधृतव्रतो वरुणः अस्या आस्वा साम्राज्याय सुक्रदुः देवस्य त्वा अश्विनार्बाहुभ्या कोष्णोहस्ताभ्याम् अश्विनोर्भेषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि देवस्यत्वासविदः प्रसवे अश्विनोर्बाहुभ्या कोष्णोहस्ताभ्याम् सरस्वत्यैभेषेन देव्यायान् राज्यायाभिषिञ्चामि देवस्य त्वासवितुःप्रसवे अश्विना बाहुभ्याम् कूष्णहस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रिये यशसे बलायाभिषिञ्चामि कोऽसि कतमोऽसि कस्मै त्वा गायत्वा स्वश्रोगा सुमङ्गरा सत्याराजा शिरो मे श्रीः यशोमुखम् क्विषः केशाश्चश्मश्रूणि राजा मे प्राणामृतम् सम्राट्चक्षुः गिराट् श्रोत्रम् जिह्वा मे भद्रम् वाल्महः मनोमन्यः स्वराट् मोदाः प्रमोदा अंगुलि रङ्गादि चित्तम् मे सहः बाहो बलमिन्द्रियम् हस्तौ मे कर्म वीर्यम् आत्मा क्षत्रमुरो मम पुष्टेर्मे राष्ट्रमुदरमपुंसौ देवाश्च श्रोण्यौ पूरु अरत्नी जानुनी दिशो मेऽङ्गामि सर्वतः नाभिर्मे चित्तम् विज्ञानं आयुर्मेऽप चतुर्भसत् आनन्दनन्दाभाण्डौ मे भगः सौभाग्यम् जङ्घ्रा आभ्याम् अभ्याम् धर्मोऽस्मि यिशिराजा प्रतिष्ठितः प्रतिक्षत्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठामि गोशो प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन् प्रतिप्राणेषु प्रतितिष्ठामि पुष्टे प्रतिद्यावा पृथिव्याः प्रतिष्ठामि यज्ञे त्रया देवा एकादशा त्रयस्त्रिपुंशासुराधसः बृहस्पतिरोता सैवा देवरवं मा प्रथमा द्वीय द्वीया तृतीय तृतीया सत्य ये यो यजुर्जो गुंशिशा साजोयाज्याज्याष्कारष्कारा आहुति आहुतयो मे कामाम् समर्धयन्तो भूस्वाहा लोमादिप्रयतिर्मम त्वान्म आनतिरागतिः पागम् सम्म उपनतिः पस्वस्थी मज्जाम आनतिः यद्देवादेवहेडनम् देवासश्च कृमा वयम् अड्जर्मा तस्मादेन सह विश्वान्वञ्छत्वगम् हसः यदि वागतिनक्तम् <gözDA> येनागुंसि च कृमावजम् आजुर्मातस्मादेन सह विश्वान्वञ्छत्वकम् हसः यदि जाग्रद्यदि स्वप्ने येनागुंसि सूर्यो मातस्मादेन सह विश्वान्वञ्छत्वकम् हसः यद्ग्रामे गदरण्ये यत्सभायाम् यद यदिन्द्रिये यच्छूद्रे यद यदेकस्याधिधर्मणि तस्यापयजनमसि यदापो अभ्यवरुणेति शपामहे ततो वरुणनोमुञ्च अवभृष निचङ्कुण निचेरुलसि निचङ्कुण अवदेवैर्देवकृतमेनो याट् अवमर्त्यैर्मर्त्यकृतम् पुरारा नो देवरिषस्पाहि सुमित्रा न आप ोऽस्मान् देष्टि यम् च वयम् विष्मः द्रुपदादिवेन्मुचानः स्यन्नस्नात्तिमलादिव भूतम् पवित्रेणेवाज्यम् आपश्यन्धरितुरेन सह उद्भजम् तमसस्परि पश्यन्तो ज्योतिरुत्तरम् देवम् प्रतिजितो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशः एधोऽस्येधिषीमहि समिदसि वेजोऽसितेजोमयुधेहि अपो अन्वचारिषम् वसे समसृक्ष्महि पयस्वागुम् अग्न आगमम् तम् मासकुम् सृजवर्चसा रजया च धनेन च समापवर्ति पृथिवी समुषाः समुसौर्यः समुविश्वमिदम् जगत् वैश्वानरज्यो दर्भोयासम् कामम् व्यस्नवै भोः स्वाहा होतायक्षत्समिधेन्द्रमिडस्पदे नाभा पृथिव्या अधि इवो वर्ष्मान् समिध्यते हो जिष्ठश्चर्षणे सहा वेत्वाद्यस्य होतर्विज होतायक्षत्तनो न पातम् होतिभिर्जेतारमपराजितम् इन्द्रम् देवगुंसु वर्वितम् पथिभिर्मधुमत्तमैः न राशगुंसेन ते च सा देत्त्वाजस्य होतर्य च होतायक्षदिडाभिरिन्द्रमीडितम् आजुह्वा नममर्त्यम् देवो देवैः सवीर्यः वज्रहस्तः पुरन्दरः वेत्त्वाज्यस्य होतर्य च दिशद्वरम् वृषभम् मर्यापसम् वसुभेरुद्रैरादित्यैः स जग्भिर्बर्हिरासदत् हे त्वाजस्य होतर्यज होतायक्षदोजो न वीर्यम् स हो द्वार इन्द्रमवर्धयन् सुप्रायणादिश्रयन्तावृता सुदुःखे मातरौ मही स मातरौ न तेजसी वत्समिन्द्रमवर्धताम् गीतामाज्यस्य होतर्ग च होतायक्षब्दैद्या होतार भिषजासखाय कविषेन्द्रम् भिषज्यतः कविदेवो प्रचेतसो इन्द्राय धत्त इन्द्रियम् वीतामाज्यस्य होतर्ग त्रयस्त्रिधातवोपसः इडा सरस्वती भारती महेन्द्रपत्नेरहविष्मतेः वियन्त्वाज्यस्य होतर्य चोदायक्षत्वष्टारविन्द्रम् देवम् सजगुम् श्रियजम् घृतश्रियम् पुरुपगुम् होताय क्षद्वनस्पतिम् शमितारगुम् शतक्रतुम् धिजोष्टारमिन्द्रियम् मद्धा समञ्जन् पथिभिः सुगेभिः सदाति हव्यम् मधुना घृतेन वेत्वाज्यस्य होतव्यज होतायक्षदिन्द्रज्ञ होता स्वाहाज्यस्य स्वाहा मेतसः स्वाहास्तोकानाम् स्वाहा स्वाहा कृतीनाम् स्वाहा हव्यसोक्तीना स्वाहा देवागुम् आर्जवान् स्वाहेन्द्रगम् होत्राजुषाणाः इन्द्र आज्यस्य वियन्वो होतर्गजा समिद्ध इन्द्र उषसावणीके पुरोर्चापूर्वकृभिधानः त्रिभिर्देवैस्त्रिगुंशता वज्रबाहुः जघानघृत्रम् विदुरोवर न राशगुम् सः प्रतिशूरोऽपिमानः तदो न पात्प्रतियज्ञस्य धाम गोभिर्वपावान्मधुना समञ्जन् शिग्यैश्चन्द्रे यजति प्रजयताः ईडितो देवैर्हरिभागम् अभिष्टिः आजुह्वानो हविषा शर्धमानः पुरन्दरो मघवानवज्रवाहः आजात यज्ञमुपलायुषाणः विषाणो बरिहरहरिवान्न इन्द्रः प्राचीनगुंसे दत्प्रदिशा पृथिव्याः अरव्यचाः प्रथमानगस्यानाम् आजत्यै रक्तम् असुभ्यः सजोषाः इन्द्रम् दुरः कवश्य धावमानाः विषाण्यन्तजनजः सुपत्नेः द्वारो देवीरभितो विश्रयन्ताम् सुबीरा वीरम् प्रथमानामहोभिः उषासा नक्ता बृहती बृहन्तम् पयस्वेषु दुःखेषु रवीन्द्रम् पेषस्वतीतम् पुनः संयजन्ती देवानान्देवम् गजतस्व रुक्मे देव्याभिमाना मनसा पुरुत्रा होता राविन्द्रम् प्रथमा सुवाचा मूर्धनयज्ञस्य मधुना दधाना प्राचीनम् ज्योदर्हविषा वृधातः तिस्रो देवीर्हविषा वर्धमानाः इन्द्रञ्जुषाणा कृषणन्न पत्नेः अच्छिन्नम् तन्त्वम् पयसा सरस्वती यडा भारते विश्वतो वर्तिः कष्टा दधदिन्द्राय सुष्मम् अपाको चष्टुर्यशसे पुरोणि वृषाय जन्मृषणम् भूरिरेताः मूर्धनयज्ञस्य समनक्तु देवान् वनस्पतिरवसृष्टो नपाशैः त्वन्यासमञ्जमिता न देवः इमिन्द्रस्य हव्यैर्जठरम् मृणानः सदा चिहव्यम् मधुना धृतेन सोतानामिन्दुम् प्रतिशूर इन्द्रः वृषायमानो वृषभस्तुराषाड् धृतपृषा मधुना हव्यमुन्दन् मूर्धन्यज्ञस्य द्विषत विस्वाहा आचर्षणि प्राविवेशयम् मा तगुम् सद्ध्रीजेः सत्यमित्तन्नत्वावागुम् अन्यो अस्ति इन्द्रदेवो न मर्त्यो ज्यायाले अहम् नहिम् परिषया न मर्णः अपासृजोपो अच्छासमुद्रम् प्रससाहिषे पुरोहो दशत्रोल ज्येष्ठस्ते शुष्म इहरातिरस्तो पतिसिन्धू नाम सि रेवतीनाम् स शेवृधमधिथाद्युम्नमस्मे महि क्षत्रम् च नाषाढिन्द्रतव्यम् रक्षाचनो मघो नः पाहि सूरीन् प्राये च न स्वमत्या इषेधाः एवम् बर्हिरिन्द्रगुम् सुदेवम् देवैः वीरवत्स्तीर्णम् वेद्याववर्धयत् वस्तो राजा बहिष्मतोत्यगात् वसुवने वसुधेयस्य वेतु यज देवेर्द्वार इन्द्रगम् सङ्घाते विद्वेर्यावन्नवर्धयन् आवत्सेन तरुणेन कुमारेण च मेविता अपार्पाणम् रेणुककाटम् का नुदन्ता वसुवने वसुधेयस्य वियन्तु देवी कुषासा रक्ता यज्ञे प्रजत्यह्वेताम् दैवेऽर्विशः प्रायाशिष्टा सुप्रीते सुधिते अभूता असुवने वसुधेयस्य वीताङ्गज देवीजोष्प्रीवसुधिती देवमिन्द्रमवर्धता अयाव्यन्याथा द्वेषागुंसि आन्यावाक्षी द्वसुवार्याणि यजमानाय शिक्षिते असुवने वसुधेयस्य वीताङ्गज देवी ओर्जाहुती दुःखे सुदुःखे पयसेन्द्रमवर्धताम् इषमोर्जमन्या वाक्षीत् सिगुम्सपीति मन्या नवे नवोर्बन्दयमाने पुराणेन नवम् अधातामूर्जमोर्जाहुती वसुवार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य गीताम् देवादेव्या होतारा देवविन्द्रमवर्धता हराधशगुम् सा वा भार्षाम् वसुवार्याणि अजमानागशिक्षितौ वसुवले वसुधेजस्य पस वीताङ्गज देवेऽस्तिस्रस्तिस्रो देवेः पतिबिन्द्रमवर्धयन् अस्प्रक्षद्भारते दिवम् रुद्रैर्यज्ञगुम् सरस्वती किमते वसु गृहान् वसुवने वसुधेयस्य वसु बियम् तु यजा देव इन्द्रोरराशगुंसः त्रिवरोधस्त्रिबन्धुरः देवमिन्द्रमवर्धयत् शतेन शितिपृष्ठा नामाहितः सहस्रेण प्रवर्तते मित्रावरुणेदस्य होत्रमर्हतः बृहस्पतिस्तोत्रम् अश्विनाध्वर्यवम् वसुवने वसुधेयस्य देव इन्द्रो वनस्पतिः हिरण्यपर्णो मधुशाखस्वपिलः देवमिन्द्रमवर्धयत् दिवमग्रेणाप्रात् आन्तरिक्षम् पृथिवीपदृगुह्येत वसुवरेव सुधेयस्य वेतुक च देवम् बर्हिर्वारिदीनाम् देवमिन्द्रमवर्धयत् स्वासस्थमिन्द्रेणासन्नम् अन्या बर्ही गृह्यभ्यभूत् वसुपने वसुधेयस्य दे पेतुयज देवो अग्निः सृष्टकृत् देवमिन्द्रमवर्धयत् दे। सृष्टम् कुर्वान् सृष्टकृत् स्विष्टा सृष्टमद्यकरोदुनः वसुमने वसुधेयस्य पेतुय च होदायक्षत्समिधाग्निमिडस्पदे अश्विनेन्द्रनुम् सरस्वतीम् अजोधूम्रो न गोधूमैः क्वलैर्भेषजम् मधुशाश्वैर्न तेज इन्द्रियम् पयः सोमः परिसृताधृतम् मधो नियन्ताद्यस्य होतर्ग च सरस्वती अविर्नेशो न बदरैरुपवाताभिर्भेषजन्तोग्मभिः पजः सोपः परिस्रुताधृतम् मधो द्वाच्यस्य होतर्यज होतारक्षन्नराशकुम्सन्ननग्नहुम् पतिगुंसुरायैभेषजम् एषः भेश सरस्वतीभिषज रथो न चन्द्र्यश्विनार्वपा इन्द्रस्य वीर्यम् बदरैरुपवाताभ्यर्भेषजन्तोक्ष्मभिः पयः सोमः परिसृताधृतम् मधु दियन्त्वाजस्य होदर्यज होता लक्ष्य दिडेडित आजुह्वालः सरस्वतीम् इन्द्रम् बलेन वर्धयन् वृषभेण गवेन्द्रियम् अश्विनेन्द्राय वीर्यम् यवे एः कर्कन्धुभिः मधुराजैर्नमासरम् पयः सोमः परिस्कृताधृतम् मधु दियन्त्वाजस्य होदर्यज होताय छद्बर्ः सुष्टरी मोर्णम् मृदाः विषङ्ना सत्या विषजाश्विनाश्वा शिषुमती विषग्धेऽनुःसरस्वती विषद्दुह इन्द्राय भेषजम् पयः सोमः परिसुताधृतम् मधु दियन्त्वाज्यस्य होतर्विज होताय छद्दुरोदिषः कपश्यो न व्यजस्वतेः अश्वभ्यान्न इन्द्रो न रोदसी दुहे दुहे सरस्वती अश्विनेन्द्राय भेषजम् शुक्रन्न ज्योतिरिन्द्रियम् पयः सोमः परिसृता धृतम् अधु नियन्त्वाद्यस्य होदर्गज होताय छत्सुपेश शोषेण कन्दिवा समञ्जाते सरस्वत्या द्विषिमिन्द्रेण भेषजम् स्येनो न रजसा हृदा पयः सोमः परिसृताधृतम् मधु नियन्द्वार्यस्य होतर्यज होताय छद्दये या होताराभिषजाश्विना इन्द्रन्न जागृदिवान त्वन्न भेषजैः सूषतुम् सरस्वतीभिषग सीसेन दुह वियन्द्वाजस्य होतर्यज होतायक्षत्तिस्रो देवीर्नभेषजम् त्रयस्त्रिधातवोपसः रूपमिन्द्रे हिरण्यजम् अश्विनेडानभारती वाचा सरस्वती मह इन्द्राय दधुरिन्द्रियम् पयः सोमः परिसृताधृतम् मधु वियन्द्वाज्यस्य हो भिषजन्न सरस्वतीम् ओजो न ज्योतिरिन्द्रियम् ऋपो नरभसोऽभिषज यशस्व्रजाभेषजम् श्रियानमासरम् पयः सोमः परिह्रुताध्यतम् अधु नियन्त्वाज्यस्य होदर्गज होदायक्षद्वनस्पतिम् सरस्वतीभिषग इन्द्राय दुहरिन्द्रियम् पयः सो वः परिसृता धृतम् अधो नियन्त्वाज्यस्य होतर्गज होतायक्षदर्निभ्यः स्वाहाज्यस्य स्तोकानाम् स्वाहा वेदसामृथग स्वाहाच्छागमस्यभ्याम् स्वाहा मेषकम् सरस्वत्यै स्वाहर्षभमिन्द्राय सबृह्णाय सहसेन्द्रियम् स्वाहा निन्न भेषजम् स्वाहा सोममिन्द्रियम् स्वाहेन्द्रगुम् सत्रापाणगुम् सवितारम् वरुणम् भिषजाम् स्वाहा वनस्पतिम् प्रियम् वाचो न भेषजम् स्वाहा देवागुम् आज्यमान् स्वाहाग्निगुम् होत्राज्युषाणो अन्यर्भेषजम् अयः सोमः यक्षदश्विना सरस्वतीमिन्द्रगुंसुत्रामाणम् इमे सोमासु रामाणः छादैर्नमेशैर्लशी सुताः शष्पैर्न कोक्ष्मभिः लाजैर्महस्वन्तः मदामासरेण परिष्कृताः शुक्राः पयःस्वन्तो मृताः प्रस्थिता सरस्वतीन्द्रः सुप्रामावृत्रः जुषन्तागुम् सौम्यम् मधो पिबन्तोलन्तु सोमम् हो गर्यजा समिद्धो अश्विना तप्तो घर्मो विराट् सुतः दुहे धेनुः सरस्वती सोमगुम् शुक्रमिहेन्द्रियम् मध्वारजागुंसेन्द्रियम् इन्द्राय पथिभिर्वहानि इन्द्रायेन्दुगुं सरस्वती नराशगुंसेन मग्नहुः अधातामश्विनामधो भेषजम् भिषजा सुते आजुह्वाना सरस्वती इन्द्रायेन्द्रियाणि वीर्यम् क्रीडाभिरश्विनाविषम् समोर्जगुंसगुम् रयिन् दधुः अश्विना नमुचेः सुतम् सोमगुम् शुक्रम् परिसृता सरस्वतीतमाधरद् परिहिषेन्द्रायपातवे कवश्यो न व्यचस्वतीः अश्विभ्याम् न दुरोदिषः इन्द्रो दुहे दुहे कामान् सरस्वती विषासा नक्तमश्विना दिवेन्द्रगुंसायमिन्द्रियैः सञ्जानाने सुपेशसा समञ्जाते सरस्वत्या पातन्न अश्विना दिवा पाहि नक्तगम् सरस्वति ह्या होताराभिषजा पातमिन्द्रगम् सचा सुते तिस्रस्त्रेधा सरस्वती अश्विना भारतेडा ते पुरम् परिसृता सोमम् इन्द्राय सुषवर्मदम् अश्विदा इन्द्रे त्वष्टाय शश्रियम् रोपगम् रूपमधुः सुते रतथेन्द्रोपनस्पतिः शशमानः परिसृता कीलालमश्यभ्याम् मधु गृहे धेनुः सरस्वती गोभिर्न सोममश्विना मासरेण परिष्कृता समधाता तुं सरस्वत्या स्वाहेन्द्रे सुतम् मधु अश्विना हविरिन्द्रियम् नमुचेर्धिया सरस्वती आशुक्रमासुराध्वसो मघमिन्द्रायजभिरे यमश्विना सरस्वती हविषेन्द्रमवर्धयन् सविभेदबलम् मघम् नमु चा वा सुरे सचा तरमिन्द्रम् पशवः स अश्विनो भा दधाना अभ्यनोषत हविषा स सुत्रामाहविष्पतिः यजमानाय सश्चत सविता वरुणो दधत् यजमानाय दाशुषे आदत्तनमुचेर्वसो सुत्रामाबलमिन्द्रियम् वरुणः क्षत्रमिन्द्रियम् भगेन सविताश्रियम् सुत्रामायशसा बलम् दधानायज्ञमाशत अश्विनागोभिरिन्द्रियम् अश्वेभिर्भेर्यम् हविषेन्द्रपुम् सरस्वती यजमानमवर्धयन् ता नासत्या सुपेशसा हिरण्यवर्तनीनरा सरस्वती हविष्मती इन्द्रकर्मसु नोगता ताभिषजा सुकर्मणा सा सुदुघा सरस्वती सवृत्रहा शतक्रतुः इन्द्रागदधुरिन्द्रियम् देवम् बरिह सरस्वती सुदेवमिन्द्रे अश्विना तेजो न चक्षुरक्ष्योः परिभिषादधुरिन्द्रियम् वसुवने वसुधेयस्य बियम् देवीर्द्वारो अश्विना भिषजेन्द्रे सरस्वती प्राणन्न वीर्यन्नसि द्वारो दधुरिन्द्रियम् वसुवरे वसुधेयस्य बियम् तु देवी श्वासा वश्विना भिषजेन्द्रे सरस्वती बलम् उषाभ्याधुरिन्द्रियम् वसुवने वसुधेजस्य बियम् देवी ज्योष्ट्रि अश्विनाः सुत्रामेन्द्रे सरस्वती श्रोत्रर्णकर्णजोर्जसः ज्योष्टीभ्याङ्गधुरिन्द्रियम् वसुवने वसुधेजस्य बियम् देवी ऊर्जाहुते सुघे सुदुघे पयसेन्द्रकम् शुक्रन्नज्योतिस्तनजोराहुति धत्त इन्द्रियम् वसुवने वसुधेयस्य वियम् तु यज देवा देवानाम्भिषजा होता राविन्द्रमश्विना झक्कारैः सरस्वती विशिन्नहृदये मतिम् होदृभ्याम् लधुरिन्द्रियम् वसुवने वसुधेयस्य विजम् तु सरस्वत्यश्विना भारतीडाः शोषण्णमध्येनाभ्या इन्द्राय दधुरिन्द्रियम् वसुवने वसुधेयस्य वियम् द्रियज देव इन्द्रो न राशगुंसः त्रिवरोधः सरस्वत्याश्वभ्यामीयते रथः रेतो न जनित्रम् इन्द्रायत्पष्टा वसुवने वसुधेयस्य विजन्तु यज देव इन्द्रो वनस्पतिः हिरण्यपर्णो अश्रुभ्याम् सरस्वत्याश्रुतिपरः इन्द्रायपच्यते मधो ओजो न ज्योतिमृषभो वसुवने वसुधेयस्य विजन्तु एवम् बर्हेरुबावितीनाम् अध्वरेऽस्तीर्णमशिभ्याम् पूर्णम् रदाः सरस्वत्याः स्योनमिन्द्रते सदः ईशायै मन्युगुम् राजानम् बर्हिषा रधुरिन्द्रियम् वसुवने वसुधेयस्य वियन्तु देवो अग्निः सृष्टकृत देवानिर्यक्षद्यथा यथम् च पुं सरस्वती अग्निपुंसोमद्यः सृष्टकृत सृष्ट इन्द्रः सुत्रा सविता वरुणाभिषक इष्टो देवो वनस्पतिः स्पृष्टा देवा आद्यपाः इष्टो अग्निरग्न्याः होता होत्रे स्विष्टकृत यशानधदिन्द्रियम् ऊर्जमपचितिज्ञस्वधाम् वसुवने वसुधेयस्य विजम् तुता अग्निमद्य होतारमवृणीता अयगम् सुता सुते यजमानः पचन् पत्तेः पचन् पुरोडाशान् गृह्णन् ग्रहान् बध्नन्नश्येभ्याम् चागभुं सरस्वत्या इन्द्राय बध्नान् सरस्वत्यै मेषमिन्द्रायास्यभ्याः वरध्रन्मिन्द्राय ऋषभमश्येभ्यः सरस्वत्यै सोपस्था अद्य देवो पश्यभ्याच्छागेन सरस्वत्या इन्द्राय सरस्वत्यैषेणेन्द्रायाश्रिभ्याम् इन्द्रायऋषभेणाश्वभ्यागम् सरस्वत्यै अक्षग्स्तान्मेतस्तः प्रतिपचताग्रभीषुः अवीवृधन्तग्रहैः अपादामश्विता सरस्वतीन्द्रः सुत्रा मावृत्रः सोमान्स्वाम्णः उपो उक्था मदा श्रौद्विमदा अदन् अवीवृधन्ताङ्गोषैः त्वामध्यर्ष आर्षेयर्षीणान्नवादवृणीता भयगुंसुता सुती यजमानः बहुभ्यः आसङ्गतेभ्यः एष मे देवे शुवसुवार्यायक्ष्यत ताया देवा देवदानान्यदुः तान्यस्मा आचषास्व आचगुरः स्व इशितश्च हो तरसि भद्रवाच्याय प्रेषितो मानुषः सोक्तवाकाय सोक्ता ब्रूहि पुशन्तस्त्वाहवामह आनो अग्ने सुतेतुना त्वगुम्सोम महे भगन् त्वगुम् सोम प्रचिकितो मनीषा त्वजाहिनः पितरः सोमपोर्धे त्वगुम् सोम पितृभिः संविदानः उपहोताः पितरो अग्निष्वात्ताः पितरः अग्निष्वात्ता धृतुमतो हवामहे न राशगुंसे सोमपीथैल आशो ते नोऽन्तः सुहवा भवन्तो छन्नो भवन्त द्विपदेशम् चतुष्पदे ये अग्निष्वात्ता येन अग्निष्वात्ताः अगम्भोमुचः पितरः सोन्यासः परे परे मृतासो भवन्तः अधिब्रुवन्तु ते अवन्त्वस्मान् न्याये दुग्धे जुषमाणाः करम्भम् कुदीराणा कवरे वरे च अग्निष्वाप्ता ऋतुभिः संविदानाः इन्द्रवन्तो हविरुज्जुषन्ताम् यदग्ने कव्यवाहनत्वमग्नीडितो जातवेदः मातलीकव्यैः एतात्रिपुर्देवक्त्रा जेहमानाः ोऽत्रावृधस्तोमतष्टासो अर्कैः आग्नेयासु विदत्रेभिरर्वाङ् सत्यैः हव्यैः पितुर्भिर्घर्मसद्भिः हव्यवाहमजरम् दुरप्रियम् अग्निम् हृतेन हविषासपर्यन् उपासदम् कव्यवाहम् पितृणाम् स नः प्रजाम् वीरवतीगुम् समृण्वत होतायक्षदृडस्पदे समिधानम् महद्यशः सुषमिद्धम् वरेण्यम् अग्निमिन्द्रम्बयोधसम् वायत्रीम् छन्द इन्द्रियम् त्र्यविङ्गाम्बयोदधत् त्वे त्वाज्यस्य होतर्य च होतायक्षच्छियव्रतम् तनूनपातमुद्भिदम् यम् गर्भमधितिर्दधे शुचिमिन्द्रम्बयोधसम् वेत्त्वाज्यस्य होदर्यज होतायक्षदीडेर्यम् ईडितम् वृत्रहन्तमम् इडाभिरेड्यगुम् सह सोममिन्द्रम् वयोधसम् अनुष्टुभञ्छन्त इन्द्रियम् त्रिवत्सङ्गाम् वयोदधत् वेत्त्वाजस्य होदर्यज होतायक्षत्सु बर्हिषदम् ओषण्वन्तममर्त्यम् सीदन्तम् बर्हिषि अमृतेन्द्रम्बजोधसम् बृहतीच्छन्द इन्द्रियम् पञ्चाभिङ्गाम्बजोदधत् वेत्वाज्यस्य होतर्यज होतायक्षद्यचस्वतेः स्वप्रायणा ऋतावृधः द्वारो देवेरहिरण्ययेः ब्रह्माण इन्द्रम्बजोधसम् पङ्क्तिच्छन्द इहेन्द्रियम् तुर्यवाहङ्गाम्बजोदधत् ेत्त्वाज्यस्य होतर्ज होतायक्षत्सुरेशसे सुशिल्पे बृहतीभे न तोषासा न दर्शते विश्वमिन्द्रम्बयोधसम् दृष्टुभञ्छन्त इन्द्रियम् पष्ठवाहङ्गाम्बयोदधच वेत्त्वाज्यस्य होतर्ज होतायक्षत्प्रचेतसा देवानामुत्तमम् यशः होता राजैव्या कवि सयुजेन्द्रम् व योधसम् जगती छन्द इहेन्द्रियम् आनड्वाहङ्गाम् वयोधत् देत्वाज्यस्य होतर्पित होतायक्षत्तेशस्वतीः तिस्रो देवीर्हिरण्यजेः भारतेर्बृहदेर्महेः पतिनिन्द्रम् वयोधसम् विराज्छन्द इहेन्द्रियम् हेऽङ्गान्नवयोदधत् देत्त्वाज्यस्य होतर्यत होतायक्षत्सुरेतसम् प्रष्टानम् पुष्टिवर्धनम् रूपाणि बिभ्रतम् पृथक् पुष्टिमिन्द्रम् वयोधसम् विभतम् छन्द इहेन्द्रियम् वृक्षाणङ्गान्नवयोदधत् देत्त्वाज्यस्य होतर्यत होतायक्षच्छतक्रतुम् हिरण्यपर्णमुक्थिरम् रशणाम् बिभ्रतम् वशिम् भगमिन्द्रम् वयोधसम् ककुभञ्छन्द इहेन्द्रियम् वशाम् देहरङ्गान्नपयोदधत् देत्वाज्यस्य होतर्यज होताय क्षत्स्वाहा कृतेः अग्निम् गृहपतिम् पृथग् वरुणम् भेषजम् कविम् क्षत्रमिन्द्रम् वयोधसम् अतिच्छन्दसञ्छन्द इन्द्रियम् बृहदृशभङ्गाम् वयो दधत् वेत्वाज्यस्य होदर्जजा समिद्धो अग्निः समिधा सुषमिद्धो वरेरण्यः राजत्रीच्छन्द इन्द्रियम् त्र्यविर्गौर्वयोदधोः तनूरपाच्छुचि व्रतः यदाभिरग्निरेड्यः सोमो देवो अमर्त्यः अनुष्टुप् छन्द इन्द्रियम् त्रिपत्सो गौर्वजोदधुः स्वर्हिरग्ः पोषण्वान् स्थ्येर्न बर्हिरमर्त्यः बृहते छन्द इन्द्रियम् कञ्चाभिर्गौर्वजोदधुः दुरो देवेऽर्दिशो महेः ब्रह्मा देवो बृहस्पतिः पङ्क्तिश्छन्द इहेन्द्रियम् तुर्यवाद्गौर्वयो दधुः ऋषे यह्मी सुपेशसा विश्वे देवा अमर्त्याः पृष्ठुच्छन्द इन्द्रियम् पृष्ठवाद्गौर्वयो दधुः दैव्याहोदाराभिषजा इन्द्रेण सयुजायुजा जगति छन्द इहेन्द्रियम् अनर्द्वान् तिस्र इडासरस्वती भारती मरुतो विशः विराट्छन्द इहेन्द्रियम् धेनुर्गौर्णवयो दधुः त्वष्टादुरीपो अद्भुतः इन्द्राग्नी पुष्पिवर्धना विवाच्छन्द इहेन्द्रियम् उक्षादौर्नवयो दधुः सविता नो वनस्पतिः सविता प्रसुवन्भगम् कपुच्छन्द इहेन्द्रियम् वशा देहद्गौर्ववजोदधुः स्वाहायज्ञम् वरुणः सुक्षत्रो भेषजम् करत् अतिच्छन्दाश्छन्द इन्द्रियम् बृहदृषभो गौर्वजोदधुः वसन्ते न तु न देवाः वसवस्त्रवृतास्तुतम् रसन्तरेण तेजसा कविरिन्द्रेभजोदधुः ग्रेष्मेण देवा ऋतुनाः रुद्राः पञ्चदशे स्तुतम् गृहदायशसावलम् हविरिन्द्रेव योदधुः वर्षाभिरऋतुरादित्याः स्तोमे सप्तदशे स्तुतम् वैरूपेण विशौचसा हविरिन्द्रेव योदघुः शारदे नर्तुना देवाः ये वैराजेन श्रिया श्रियम् हे मन्ते नर्तुना देवाः मरुतस्त्रिणवे स्तुतम् बलेन शक्परीः सह हविरिन्द्रेवजोदधुः शैशिरे नर्तुना देवाः त्रयस्त्रिपुंसे मृतग्रस्तुतम् सत्येन रेवतीः क्षत्रम् हविरिन्द्रेवजोदधुः देवम् बर्हिरिन्द्रम् वयोधसम् देवम् देवमवर्धयत् गायत्रिया छन्दसेन्द्रियम् ते ज इन्द्रेव योदधत् वसुवने वसुधेयस्य देतुग देवेर्द्वारो देवमिन्द्रम् वयोधसम् देवेर्देवमवर्धयन् पुष्णिहा छन्दसेन्द्रियम् प्राणमिन्द्रेव योदधत् वसुवने वसुधेयस्य विजन्तु यज देवी देवम् वयोधसम् उषेरिन्द्रमवर्धताम् अनुष्टुभा छन्दसेन्द्रियम् वाचमिन्द्रेव योदधत् वसुवनेव सुधेयस्य बीताञ्ज देवीजोष्टीदेवमिन्द्रम् व योधसम् देवी देवमवर्धताम् बृहत्या छन्दसेन्द्रियम् श्रोत्रमिन्द्रेव योदधत् वसुवदेव सुधेयस्य बीताम् यज देवी ऊर्जाहुति देवमिन्द्रम् वयोधसम् देवी देवमवर्धताम् पञ्चा छन्दसेन्द्रियम् शुक्रमिन्द्रेवयोदधत् वसुवने वसुधेयस्य वीताङ्ग च देवादेव्या होतारा देवमिन्द्रम् देवा देवमवर्धताम् त्रिष्तुभा छन्दसेन्द्रियम् ऋषिन्द्रेव योदधचत् वसुवने वसुधेयस्य वीताङ्ग देवीस्तिस्रस्तिस्रो देवीर्वयोधसम् पथिन्द्रमवर्धयन् जगत्या छन्दसेन्द्रियम् बलमिन्द्रेव योदधत् वसुमनेव सुधेयस्य भियन्तु यज देवो न राजपुंसो देवमिन्द्रम् वयोधसम् देवो देवमवर्धयत् विराजा छन्दसेन्द्रियम् रेत इन्द्रेव यो दधत् वसुमनेव देवो वनस्पतिर्देवमिन्द्रम् वयोधसम् देवो देवमवर्धयत् द्विपदा छन्दसेन्द्रियम् भगविन्द्रेव योदधत् वसुवनेव सुधेयस्य वेतुकि च देवम् बलभिर्वायुकीनाम् देवमिन्द्रम् वयोधसम् देवम् देवो आद्यस्पष्टकृद्देवमिन्द्रम् वयोधसम् देवो देवमवर्धयत् अतिच्छन्दसा छन्दसेन्द्रियम् क्षत्रयेन्द्रेव योदधत् वसुवने वसुधेयस्य वेतु यजा